अथ श्रीमहाभारते आदिपर्वणि एकोनचत्वारिंशोऽध्यायः सौतिरुवाच गेलापत्रवच श्रुत्वा तेनागाद्विजसत्तमा सर्वे प्रहृष्टमनसः साधु साद्वित्यथा ब्रुवन् तथः प्रभृति तां कन्यां वासुकिः पर्यरक्षत जरत्कारुं स्वसारं वै परं हर्षमवाप च कालः समतीत इवाभवत् अथदेवासुराः सर्वे मम तत्र नेत्रमभोन्नागो वासुकिर्बलिनां वरः समाप्यैव च तत्कर्म पितामहमुपागमन् देवा वासुकि पिता महमथा ब्रुवन् भगवच्छापभीतोऽयं वासुकि स्तप्यते भृशम् अस्यैतन्मानसंशल्यम् समुद्धर्तुम् त्वमर्हसि जनन्याश्चापजं देव ज्ञातीनां हितमिच्छतः हितो ह्ययम् कुरु देवेश शमयास्य मनोज्ज्वरम् ब्रह्मोवाच वचनं मनसामराह येलापत्रेण नागेन यदस्याभिहितम् पुरा जत्करो त्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम् विनशिष्यन्ति ए पापा न तु ये धर्मचारिणः उत्पन्नस्य जरत्कारुस्तपस्युग्रैरतो द्विजः तस्यैष भगिनीं काले जरत्कारुम् प्रयच्छतु येलापत्रेण यत्प्रोक्तम् वचनं भुजगेनः पन्नगानाम् हितं देवास्तथ न सौतिरुवाच एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा सन्दिश्य पन्नगान् सर्वान् वासुके शापमोहितः स्वसारमुद्यम् य तदा जरत्कारुम् वृषिम् प्रति सर्पान् बहुञ्जरत्कारौ नित्ययुक्तान् समादधत् जरत्कारुर्यदाभार इच्छेदरयिम प्रभु शीघ्रमेतदाख्येयम त्रे श्री महाभारते आदिपर्व आस्तिकपर्व जरत्कार